अम्बति ओम्बोदावद् दशकम् वेणुगानत्वपूर्णवकलाय कोमलम् प्रेमदोहनमचेषमोहनम् ब्रह्मतत्त्वपरचिन्मुदात्मकम् वीक्षसं मुमुहुरन्वहम् स्त्रिय मन्मतोन्मतितमानसाक्रमात् लोकनरतास्ततस्तथा गोपिकास्तवनसे किरे हरे काननो भगतिमप्यहर्मुखे निर्गते भवदि दत्तदृष्टय त्वद्गते न मनसा मृगेक्षणा वेणुना नन्तमितवान् भवानपि स्निग्धपादबदले मनोरमे व्यत्यया कलितपादमास्थित प्रत्यापूरयत वेणुनालिका आरबाणदुतकेशरीकुलम् निर्विकारपशुपक्षिमण्डलम् पकम् व्यजनि वेणुपूजितम् वेणुरन्ध्रतरलाङ्गुलीदलम् तालसञ्चलितबाधपल्लवम् संस्थितम् तव परोक्षमभ्यहो संविचिन्त्य मुमुहुर्व्रजाङ्गना निर्विशङ्कभवदङ्गदर्शिने केशरीकगमृगान् पशूनपि त्पदप्रणयिकाननम् चत धन्यधन्यमिति नन्वमानयन् सम्पिदेयमदरामृदम् गता वेणुभुक्तरसचेशमेकता धूरतो बत कृतम् दुराचयेत् चित्तयो निजनिदादनुग्रहान् भक्तरागविवचास्त्वयि प्रभो नित्यमापुरिहकृत्यमूटताम् रागस्तावज्जायते हि स्वभावाद् मोक्षोपायो यत्न तस्यान्न वा स्यात् तासाम् त्वेगम् तद्द्वयम् भाग्यम् भाग्यम् भागिवातालये च कृष्ण जय कृष्ण जय कृष्ण जय कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण जय